इवत् अशकं परमेश्वरन् विषपमंल् करलं धरलानलं पुरस्ता ते जल दीरुद्भिज काल कालकूटम् अमरस्तु देवादमोदनिज्ञा गिरिचस्तन्निपपो भवत्प्रियातं विमदः ससुरासुरेषु जाता सुरभिस्तामृष शून्यदाश्रितामणे कमनीया कमला बपो बोभदेव अमलां अवलोकयां विलोलक सकलो विस्पृकयां बपोभलोकक त्वयि दत्त कृपेटिकां व्यधोनीत सकलो बक्रदाभिषेचनीय ऋषयस्तां श्रुके पिरभ्यिञ्चन् अभिषेक जलनुपादि मुक्त वदपोङ्गिताङ्ग मणिकुण्टलपीदचेलकार प्रमुखैस्ताम् अमराधयोऽम्बभूषण वर्णस्रज मात भृङ्गनाथ तदधिचकुम्भमं दयाना पदशिञ्चिदमञ्चनो पुरा त्वां कलिदं व्रीलविलास माससौत गिरिशदृग्णादिसद्वदेवान् गुणपाचोप्यविमुक्तदोषलेशान् अवमृत्य सदैव सत्वरम्ये नीता त्वय्यनयापि दिव्यमाला पुरसा तरसा ममा निधैनां भुवनानां जननीम् अनन्यमावां त्वदुरो विलसत्तदि क्षणश्रे परिवृक्षा परिपट्टमासमिष्वाम् अधिमोकर विप्रमाददाने मदयन्ते खलु वारुणे निरागात् तमसः पदवे मदास्त्वमेना ननयात्मकासुरेभ्यक करुणाम्बुध सुन्दरस्तदाता ननु तन्वन्दरि रत्थोराशङ्के अमृतं कलशेवकराभ्याम् अखिलार्तिं करमारुतालये स सर्वत्र गोविन्द नाम संकेतनं गोविन्द गोविन्द <coughs> इरवति ओदां दशकं देव अमृतम् अडिरम्वकरा अमृतं करस्वीय देवान् सत्यस्थिरोदधिको श्यामां रुचा वयसापि धनं तदानीयम् प्राप्तो प्राप्तों त्वं प्रियोषकुम्भकल परिमोच्य सन्वे दृष्णाकुलां प्रदेयस्वदुरो जम्भे कुता मिम इति आरोढरागविभयाचतो मून विश्वस्यते मयि कथं कुलटास्मि दैत्यालप अभिषोमे श्वसिदानतानेके मोदा सुता कलसमेषु ददत्स सात्मा तुष्टितो मम सग त्वमिति ब्रमाणा पङ्क्तिप्रभेद विनिवेचित देवदयत्या लीलाभिलासगदिभिः समतः सुतं ताम् अस्मा स्त्रियं प्रणयनित्य सुरेषु देशो दोषं स्थितेष्व समाभ्य सुरेशो त्वं समा भक्तलोकवच निजरूपे द्या सर्पानुमर्ध मर्धबरि, जली के त्वं हरणयोग्यबलं परेषो त्वघते त्वयि सुरे खलु ते व्यगृह्ण घोरे तमोच्च दीर्णे बलिदैत्यमाया व्यामोहिते सुरगणे त्वमिहाभिरासीके त्वं कालनिमि मदमालिमुख जगन्त चक्रो जघान बलिजम्बबलं सपकालने नोष्टार्त्र पेने नमुचलुणे नरुणो ऋणं तो योष भोगितं ते श्रुत्वाभिलोकन को दो कलेशकुधै समं गिरिजयाचकं ते चोत् प्रमेतभिमतो तिरोद आरामसीमनि चन्दुग कलीलोला यनां कमनीं मनोज्ञां त्वामेष विगलत्त्वसनां मनोपूवेकात् अनङ्गरिपुरङ्गलिलिङ्गो यो बि विधृदपते उपदव्य देवो मेर्य प्रमोक्ष दात्रिरणं शरणं नारायण अखिल गुरु भगवन् नमस्ते सर्गे अय्यपनो अवतां वर्ध इ दशकं वामनवतारं चेन् चक्रेण चुक्रेण जीविददनुक्रद्वर्ध्यदोष्मां विक्रान्ति मान् वयनिलीनसुरं त्रिलोके चक्रे वसें चदव चक्रमुखात् बीतक पुत्रार्तिदर्शनवशात् अदितिं व्यषण्णा तं कौश्यपं निजपतिं शरणं प्रपणा त्वो जनं ददधि तं किपयो व्रदाख्या सा दचा तस्या भदो त्वयि निलेन मधेरमश्याख्यामच्चदुर्भुजपो स्वयमाभिरासीके नम्रां च धाम्यगभवत्तनयो भवेया गोप्यं मदीक्षणमिति प्रलपं नयासिंहे तं काशपे तपसि प्रणदो विदात्रा प्रसोदच प्रकटवैष्णवदीं पुण्यदिने भवन्तो पुण्याश्रमं तमभि वर्षति सुरगणे कृदतुम् जघोषे पद्वाञ्जलिं जय जये तिनुत पितृभ्यां त्वं तत्क्षणे पडुतमं बडरूपमाता का तावत् प्रजापतिमुखे उपनीयमो जीदण्डाजिनाक्षलयादि जी विरच्य मोनक ते दीप्यमानवपुरी च कृदाग्निकार्यक त्वं प्रास्थिता बलिगृहं प्रकृता स्वमेतं गात्रेण पावीम् महि मोचितगौरवं प्राके व्यावृण्वे वदरणे चलयल् नयासे के चत्रं परोष्मधिरणार्थमि वा दानक दण्डं च दानवचने विभसन् निधातुं धार्मदोत्तरतटे अयमे दशालामासे दोषित्वयि रुच तवरुत्तनेत्रैके भास्वाकिमेष दघनो योगेन गोयमिति चोक्रमुखै शशङ्के आनि मघसा विभूतैः त्वां रम्यरूप असुरपुळका वृताङ्क भक्त्या समेध्य सुकृते परिण्यपादौ ततो यमन् बधृतमूर्तनि तीर्थतीर्थं प्रह्लादवं च जतया कृतभिजेषो विश्वासदोनुता पिलेपे यत्ते पदाम्बुगिरिजस्य शिरोऽभिलाल्या स त्वं विभो पुरपुरालय पालये ता का प्रीत्या दैत्यखं तव माराधण अजितरचयाञ्जलिं स जकाद मत्तः किं देव समभिलक्षितो विप्रसूनो वदतो व्यक्तं भक्तो भवनमवनीं वा पे सर्वं प्रदास्य कामक्षीणां बलिकिरमुपाकर्ण्य कारुण्यपूर्णो A siitä, o samani une mis morally दैत्यवंश प्रशंसन् भूम्य पादत्रयपरिमितां प्रार्थयामासीदत्मो सर्वं देहीति दुनिगतिदे कस्य कस्य न वा स्यात् योचसे पालि सर्वं भोमीं भृण किममुनित्यालभत्वां सदृ यस्माद्मात् त्रिपद परिपूर्त्यक्षमगक्षेपवातान् बन्धं च सा भगमदर्गोपे गौढोपशान्त्ये पादत्रय्या यदि न मोदितो मिष्टमेनापि दुष्येत् यद्योक्ते स्मृण वरद भवते तादुकामे ततो दैत्याचार्यकम् तव खलु परेक्षार्थिन प्रेरणा तं मा देया करिरयमिते व्यक्तमेव पबाषी याचत्येव यदि सबकमाल् पूर्णकामोऽस्मि शोको दास्याम्येव तिरमिति वदन् काव्यशब्दोऽपि दैत्यग विन्ध्यावल्यां निजदयिदया तत्वपत्यायदुभ्यो चित्रं चित्रं सकलमभिस प्रार्पय तोयपूर्वो निस्सन्देहो तिधिकुलपदौ त्वय्य शेषार्पणं ददे व्यदल् बाणे मुमो सौरुषयक सामरं दिव्यं रूप तव च ददिता पश्यतान् विश्वभाजा उचैरोचैः चे, अवृदधवधीकृत्य विश्वाण्डभाण्डो कल्पादाकृ निजपदकदा पुण्डरीकोद् बभोऽसौ कुण्डीतो यैः असिचदपुनादे यज्जलम् वेशलोकान् हर्षोत्कर्क्षात् शुभगुन्दृते केचरे स्मरणं निवनमचर जाम्बवान् भक्तिशाली पावनमधिमृते वर्दुरारब्ध योद्धा देवो देवोपेतैः भवदनुचरै ये सङ्गता भङ्गमापणे कालात्मायो वसति पुरतो यद्वशात् प्राज्ञिदास्मक किं वयोधैके इति बलिगिरातेत पातालमापो पाशैद्बग्दम्बदिगपतिना दैत्यमुच्चैरवदे दर्तिको दिश मम पदं किं न विश्वेश्वरोऽसि पदं मूर्णी प्रणयभगवन् नित्यकम्बं वदन्तो प्रह्लादस्तु स्वयमुपगतो मानयं नस्तवेद्वा दर्वोचित्यै विहितमखिल दैत्यसिद्धोऽसि पुण्यै लोगस्ते स्तो त्रिदेवविजये वासवत्तं च पश्चात्रे मत्सायोज्यं भजच पुनरेत्यल् वग्रन्हा बलिं तो विप्रै सन्तानिदमकवरकभागे वातालये स सर्वत्र गोविन्दनामसङ्गीर्तनं गोविन्द गोविन्द मुप्ति रशकं मत्स्यवै पडिक न कार्यं कैकूम् पुराकयग्रेवमगासुरेण षष्ठां धरां दोचदकण्ठकल्पे नेत्रोन्मुखब्रह्ममुखाधृतेषु वेते श्रुते सत् किलमस्य रूपं सत्यं व्रदस्यन्त्रमिलादि भर्तुकं नदी जले तल्प यदस्तदानीं कराञ्जलो सञ्जलिदाकृते स्वा अदृश्यदा कश्चन चकितं विलोक्य निन्येऽम्बपात्रेण मुनिस्वगीकं स्वल्पैरकोपि कलशिं च कोपां पापीं चरचानशिषे विभुत्वा योगप्रभावाद् भवदज्ञदस्त्वं मुनिना पयों मृत्यो मुना कल्पति दृष्टुमेन सप्तागमस्मेधि वदं नयासि प्राप्ते ददुक्ते पारिधारा परिप्लुते भूमितले मुन्रग सब्दर्शिभिः सार्धमपादभारित्कोण्णमानः शरणं ज्ञयत्वां परां तदा देशकरीमवाप्तां नो रूपिणे हारुरकस्तदो ते तत्कम्बकं प्रेषु च तेषु भूयक त्वमम्बुते रविरभो महीयान् जशकृतिं तदा नमोच्चैस्तरते जसं त्वां निरीक्षतुष्टा मुनयस्वदुख्या तत्तुङ्गशुङ्के धरणिं पवन्तको हा कृष्णौको मुनिमण्डल ये प्रदर्शयन् विश्वजगद्विभा संस्तोयमानो विवरणेन ज्ञानं परं चोभदिचन्दचोरीय कल्पावधो सप्तमुनिन् पुरोवत्प्रस्ताप्य सत्यव्रत भूमित्वं तं वैवस्वदोक्यं मनुमा दतानक क्रोधात् अयग्रीवमभित्रोपोङ्को स्वदुङ्गक्षदभक्षसन्तं निभात्य दैत्यं निगमान् गृहीत्वा विरिञ्चये प्रीतकृते दतानक प्रवञ्चनाकारपदे प्रभाया सर्वत्र गोविन्द नाम संकीर्तनं गोविन्द गोविन्द 33వ దశకం అంబరీక్ష చరిత్ర రామ అవతారం వర్తక మున్నాడి ఆ వంశతల వంద అంబరీషోడ చరిత్రం ఇక్కడ చెప్పబడు వైవస్వదోక్యమన పుత్రన పోకజాతన పోకనో మగ నరేంద్రసోదోంబరీషక సప్త నవవృదమయే దైతో ఫిరిమే తస్య సంజ్యోత్మయచ మగ్న మనో సదైవ तत्प्रीतये सगलमेव विदल्बतोस्य भक्तैवदेव न चिराद प्रत प्रसातं येनाश याचनमृतेभ्यभिरक्षणार्थं चक्षुं भवान् प्रदिदधार सखस्वधारं सत्त्वदशीं व्रतमुतो भवदर्चनार्थं वर्षं ददो समं सुमनसा मगधीं विदल्ब भोजान् त्रिजेषु विसृज वच्टिकोटिं तत्रादपार्णदिने भवदर्शनान्ते दूर्पाससास्यमुनिनां भवनं प्रपेदे भोक्तुं प्रदत्सृपेण परार्तिशीलो मन्दं जगाम यमुनां नियमां विधास्यन् राज्ञादपार्णमुखोर्त समाप्तिकेत पारण मकारि भवत्परेण प्राप्तो मुनिस्तद दिव्यदृशा विजोन क्षेप्यं कृदो धृतझटो विदता न कृत्यां कृत्यां च ताम् असिधरां भुवनिं अग्रे विवेक्ष निपदिन न पदाच्चकम्बे त्वद्भक्तपादमभिमेक्ष सुदर्शनं ते श्रुत्या नलं सलभयं मुनिमन् तावन्न शेष भुवनेषु भिया स पश्चिन्ने विश्वत्र चक्रमपि ते करवान् विरिञ्चं कालचक्रमधिलङ्क यदेत्यपास्तक सर्वं जयो स च भवन्तमवन्तदैव भोजो भवन् निलयमेत्य मुनिं ो या अम्बरेष पदमेव भजेति भोमन् तावत् समेत्य मुनिना सगृहे ततो भवद श्रमस वनौषीत् चक्रे कदे मुनिरदात किलाच्युषोस्मे त्वद्भक्तिमागसिं कृते विकृपां च संसृण राजा प्रदीक्ष मुनिम् एकसमं मनाश्वाने सम्भोज साधुदमृषिं विसृजन् स्वयं त्वयि ततोऽपि दृढं रतो भूत् सा योज्यमापसमाम् का का सर्वत्र गोविंदा गोविंदा 34 दशकं रामावतारं मुप्पञ्चेन्वाणे <laughs> दशमुखनितनं कोसलेष्वृच्च शृङ्गे पुत्र्यामिष्टिमिष्टां दोषे दशरदक्ष्मप्रदे पायसार्घो त्वद्भक्त्या तत्फलेष्वेन द्विसृषु समा जादगद्भासुजातो रामस्वा लक्ष्मणेन स्वयमतः वरदेनाभिषदृघ्ननाम्ना कोदण्डीकौशिकस्य कृतपरमभितो लक्ष्मणेनानुयादो यदो भोस्तदवाच मुनिगदितमनुद्वन्द्वशान्तात्मके दध कृणां प्राणाय पौणैः मुनिवचनबलात् ताटकां पाठयेत्वा लब्ध्वास्मादस्त्रजालो मुनिवनमगमो देव सिद्धाश्रमाख्यं मारीचो प्रापयित्वा मखचिरसि चरैः अन्यरक्ष हम से निगलन कल्यां कोर्बल्न कल्यां पदिबदरजसा प्राप्य वैदेकके गो बिन्दानचान्द्रोठं धनुर्हवनिसुताम् इन्दिरामेव लब्ध्वा राजा प्रातास्ता त्रिभिरविच समं भ्रातृवीरे सदारै आरुदाने रुषान्ते मृगकुलतिलके सङ्क्रमय्यस्पते जो यते या यादोऽस्य यो द्यां सुगमिघनिवसन्न कान्तयाँ कान्तमूर्ते शद्रुग्ने गतवति भरते मधुलस्याधिवासम् दा रप्तोभिषेक तव केगया के गया देशपुत्या साधु क्या यादु कामो बना गुहनिलयगतग तं जट शिरदारी न वा सन्धेत्य गङ्गा अधिपदवि पुनस्त भरद् वाजमारात् नत्वा तत्त्वाच्य हेतो अधिसुखमवसग चित्रकोटे किरण्रे श्रुत्वा पुत्रार्ति किन्नं खलु भरदमुखात् स्वर्गया स्वता तं तत्त्व तत्त्वाम्बुधस्मै निदधित भरते पादुकां मेदिनीं च मातृं नत्वादगत्वा वनमति विपुलं तण्डकं चण्डकायं गत्वा दैत्यं विरातमो सुखदिमगलयग चारुपोषारपङ्खे नत्वा कस्त्यं समस्ताचर निगरसभत्प्रकृतिं तपसेव्यग प्रत्यश्रौषे प्रियैषे ददनु च मुनिना वैष्णवे दिव्य चापे ब्रह्माश्रे च वितत्ते पते पितृसुकृतं वीक्ष भूयो जटायुम् मोधाद्टान्ते परिरमसि पुरा पञ्चवज्ञां वदोख्या प्राप्ताया शोर्पणख्या मदनचलधृतेरर्थने निसकात्मा तां सौमित्रो विसृज्य प्रबलदमरुषातेन निर्लो न नासा दृष्टैनामृष्टचित्तं च द्रिमूर्तं व्याहिंसे आचरान्नप्ययुदसमधिकान् तत्क्षणात् अक्षतोष्मा सोदज्ञा प्रोक्तवार्ता विवशदशमुखा तिष्ठ मारीच माया सारङ्गमा सारसाक्षा प्रगिदमनुगतक प्रभधेर्बाणातन्मायाक्रन्द निजापित भवदनुजां रावणस्तामकाशेत् तेनातो वित्वमन्दक किमपि मुदमता का तद्वधोपायलपात् भूयस्त अग्रदशमुगस्तो मध्वेन त्युक्त्वा या ते झटायौ प्रार्थनं प्रेतकार्यो कृकानं तं कपन्तं जगनितः शपरिं प्रेक्षपं पातटे तम्प्राप्तो वादसोन वृषमुदितमनाका भागिवातालये स निधसुग्रीवमैत्रेयं तदनु हनुमता द्वन्द्वपे कृपा गोष्ठेन भूयो लुलिविदयुगवत्पत्रिणा सप्तशालान् हत्वा सुग्रीवगातोद्यदमतुलबला बालिनं व्याजव्रत्या वर्षा वेलमनिषे हे विरगतरलितक त्वं मदङ्गाश्रमान्ते सुग्रीवेणान् जोग्या सभयमभियता वागिनीं तां वृक्षाणां मेक्षधक्षत्रदमतः दयिता मार्गणा यावनं राम सन्देशा चाङ्कुलीया पवनसुधकरे प्रातिशो मोदशाले मार्गे मार्गे ममार्गे कविपिरभितता त्वत्प्रिया स प्रयासैः त्वर्ता कर्णनोत्यग म्पात्य सम्पाति वाक्य प्रोतीर्णा नोधिरदनगरे जनकचौम्वीष तत्त्वाङ्गुलीयं प्रत्यक्षोध्यानमक्षबणक्षणरणखोढबन्धोदचास्यं दृष्ट्वा पृष्ट्वा चलङ्का झटिति स हनुमान् मौलिरत्वं तदौते त्वं सुग्रे कदा ते प्रबलकविचमो चक्रविक्रान्तभूमि चक्रो विक्रम्यपरे चरेन्द्रानुजा श्रियमाणक तत्प्रोक्तां चतुर्भं रहसि निशमयन् प्रार्थना प्रार्थ्यरोषं प्रास्ताग्नीयास्रते जग प्रसदुदधिरा लब्धवान् मध्यमार्थ निराशान्तरोपाकृत गिरिनिकरैके सेधुमाधाप्य यातो यातो यामार्त्यदंष्टा न कचिकरिशिला सहलस्रैष्वसंज्ञैके व्याकुर्म सानुजस्त्वा समरपु विपरा विक्रमं चक्रजेत्रा बेका नाकाश्रबद्धक पदकपदि करुन् मारुते मोचितो सौमित्रेस्तत्र शक्तिप्रगतिगळदर्वादजनीतशैल्राणात् प्राणानुपेतो व्यकृदकु श्रुतिश्लाघिनं मेघनाथो मायाक्षोभेषो मयि मेषणवचनकृदस्तम्भन कुम्भकर्णो कम्बितोलमतिलचमो भक्षिणं दक्षिणोत्सौ कम्भारि सम्प्रेषित रदकवचो रावणे न ब्रह्माश्रेणास्य बिन्द कलदतिम् अबलाम् अग्निशोध्यां प्रकृगण देवश्रेणीपरो चे वित समरमृतैः अक्षदैरुक्षैके लंका भर्त्रा च साकं निज नगरमकाङ्का सप्रिय पुष्पकेण प्रीतो देव्याभिषेकैके अयुध समदिकान् वत्सरान् पद्य मैथिल्यां पापवाचा शिव शिव किल तां गर्भिणीमभ्यकासे हे शद्रुग्ने नार्दये त्वां लवणनिचिचरं प्रार्थय श्रोत्रपाशो तावत् वाल्मीकिकेके कृध वसतिरुपासोत सीतासुदोते वाल्मीकिके त्वस्सुदोत्काभित मधुरकृते राज्ञया यज्ञवाटे सीताम तु्याप्तु कामे क्षिधिमाविषदसौ तमच कालार्थितो भो हे तो सौमित्रे स्वयमदसरयो मग्ननिशेषभृत्यैः साकं नाकं प्रयातो निजपदमगमो देव नो चे स्वात्मानुभूतिके क्वनु तव मनसो विक्रिया चक्रपाणे स त्वं सत्वैकमो ते पवनपुरपते व्याधोनो व्याधितापान्ने जानकी कान्तस्मरणं जय जय राम राम <coughs> मपत्यां दशकं परशुरामरुडे अवतावरणम् अत्रे पुत्रदया पुरात्त्वमनसो यायां विदत्ताभिधो जादृक्षयब तृदमनाका स्वस्थचरणकान्तया दृष्टो भक्ततमेन हे कयमयके पालेन तस्मै वदान् अष्टैश्वर्यमुखान् प्रताह्य दधितस्विनैव चान्ते वधो सत्यं कर्तुमदर्जुनस्य च वरं तच्छक्तिमात्रो नदं ब्रह्मद्वेषितथा किलं च भूमे परो सञ्जातो जमदग्निदौ मृगकुले त्वं रेणुकायां करे रामो नाम तदात्मजेष्वर जग पित्रोरदासम् लब्धाम् नाय गणचतुर्दशमयो का गन्धर्पराजे मनागे आसक्तां किलमातरं प्रदिपितु को क्रोध कुलस्याज्ञया तदाज्ञाधिकसोदरैः चित्रान्तात्मिदुको तेषां जीवनयोगमापितवरा माता च देदात्मरान् पित्रा मातृमुदे स्तवा कृदमि यत् ते नोर्निजात् प्रस्थायात भृगौर्गिरा और गिरो आराध्य गौरिपतिं लब्मा तत्परशु प्राप्तो मित्रमदाकृदं ऋणमुनिं प्राप्य गमश्रमो आके टोपगदोऽर्जुन सुरघवे तत्र परिपूजित पुरकतो दुर्मन्त्रिवाच पुनः कां कुदियातेना सचिवं युङ्क्त कुदिया तेनाभिरुदल् मुनिं प्राणक्षेभ सरोषगो कदचमोचक्रेण कृदगः शुक्रो जीवित कादवाक्यचलिदक्रोतोथ संख्या समम् विप्रव्यातमहोदरोपनिकितं चापं कुटारं चरान्ने रान् आरोढस्सगभागयन्त्रं मा ग्रीष्मदीं मा सप्तदश भिक्षोक्षोगिणी बे महासेनानि विरने गमित्र निकैके राजम्भिता योधनग सत्यस्तत्कुठारपाणविदलं निशेषसैन्योत्करो वेदे प्रकृदनट्टचेष्टतनयक त्वामा वदते कयक लीला वारिकनर्मतां जलबलङ्केश गद्वा भगं श्रीमद्भगो सहस्रमुक्तभो सस्रास्रं निरन्तं नमो चक्रे त्वं यथ वैषवेऽपि विफले भूत्वा करिं त्वामुद यं चिदसन्ददोषमवद शोकात् परं ते पतौ भोयो माक्षिदकेखयात्मजगणैके तहते कते रेणुका अज्ञानां हृदयं निरृष्ट बघुशो घोरां प्रदेज्ञां बगल् ज्ञानानि धरधायुधस्तमकृतं का विप्रतृगक्षत्रियान् चक्रेषु कुटोरयन् विचिकयन् नक्षत्रिया मेदिनी तोदो जीवनकृलगकुलम् त्रिसप्तकृतो जयन् सन्दर्ज्ञात समन्तपञ्चक मकारक्तक्रदौघे पृतॄन् यज्ञ काश्यपादश्रुदिशन् साल्वेन योध्यं पुनः कृष्णो मम निगनिष्यदि द्विषमितो युद्ध कुमारे भवान् न्यस्यास्त्राण्ये मघेन्द्रभोप्रदे तपस्तल् पुनर्मञ्जिता गोकर्णाभदिसागरेण धरणीयं दृष्टार्थिदस्ताभसै जादेशत्रुधा नलाश्रचकितं सिन्धुं श्रीवक्षेपणाते उत्सार्यो धृतकेरळो मृगपते पदेश संरक्षमा सर्वत्र गोविन्दनाम संकीर्तनं गोविन्द 37, 38, मुप्पुः ऊणु सेन्द पठक्रानन्दतनो हरेणनपुरा दैवसुरे सङ्गरे त्वत् कपि कर्मशेषवसदो ये तेन याता तेषां भूतलजन्मनां तिभुवां भारेण दोरर्तितः भूमे प्राप विच माश्रितपथं देवै पुरैवागति ते आकां दुर्जनपौरिभारमदितां पातो निदौ पादुकाम् एतां पालय हन्त मे विवशतां सम्भृच्च देवानि मान्य इत्यादिं प्रचुरप्रलाभविवशाम् आलोक्य धातामयी देवानां वदनानि वेक्ष्य परितो दद्यो भवन्तं रे पूचे चाम्बोज भोरमु सत्यं धरिभ्या नन्वस्या भवदां च रक्षणमिदो दक्षो गि लक्ष्मीपदि ये सर्वपुरःसरापयमितो गत्वा पयो वारितिं नत्वादं स्तुमके जवाति ययुको साकं तव केतनो ते धीरं गता सङ्कताका यावत् त्वत्पदचिन्तनैकमनसक तावत् स पातो च पोको त्वत्त्वचम्प्रतयन् आख्यातः परमात्मना स्वयमकं वाक्यं तदा कण्यतां जाने दीनदशामगं दिविषतां भूमे च भीमङ्गपये तत्क्षेपाय भवामि याद्वकुले सोकं समग्रात्मना देवां वृष्णिकुले भवन्तु कलया देवाङ्गनाचावना मत्सेवार्तमिति त्वदीयवचनं पातो च पूरोचिवान्ने श्रुत्वा कन्नरसौयनं तव वचक सर्पेषु निर्वापि तस्वातेष्वीश गदेषु ता भगकृपा पीयूषदृप्तात्मसो विज्ञाते मधुरापुरे किल भव नित्यपुण्योत्तरे धन्यां देवकनन्दिनी मुदभगत राजा सशोरात्मजक उत्माकावसिधौ तदीय स गजक कं येदसोदया कतपदिरते व्योमोतया त्वजिरा अस्यास्वमदेसुदां हन्ते दिकन्ते हृदक सन्द्रासात् सदुकन्धुमन्धिकगतां तन्मीं कृपाणिं मदात् गृह्णानच्यकुरेषु तां खलमधिहे सौरे चिरं सान्त्वनेके नोर्म जन् पुनरात्मजार्पणगिरा प्रीतोतयातोऽग्नकान् आद्यं तत्सगजं तथार्पितमपि श्रीकेन न कन्नसौ दुष्टानामपि देव पट्टकरुणा तावत् त्वन्मनसैव नारदमुनिके रोचे स भोजेश्वरं योयं नन्दसुराश्च चुराश्च यदवो जानासि किं न प्रभो मायावे सगरेन् भवद्पदकृते भावी सुरप्रार्थनात् एत्य कल्य यदो न दोतु न दसो सौरे च सोन्यो न गण्य प्राप्ते शब्दमगद्भता मगिपतो त्वत्प्रेरणा मायया गीते मधवरोगिणीं त्वमविभो को चे सुखैकात्मग ते बको जठरा विवेशितविभो संस्तोक्यमानसुरे Amen. <laughs> स त्वं कृष्ण विधूयरोगपटले भक्तिं परां देहि मे आनन्दलोपभगवनहितेवतारे प्राप्ते प्रदीप्तभवदङ्कनिरीयमाणै कान्तिं व्रजैरिवगरा गनमण्डलज्ञाम् अवृण्वते विरुरुचे किल वर्षवेला आचासुषीदळतरासु पयोदतो यैः आचार सिदाप्नि विभशेषु रसज्जनेषु नैषाकरोदयविधो निशिमध्यमायां श्रेशा भगस्त्रि जगतां त्वमिकाभिरासिंहे नारायण नारायण नारायण नारायण नारायण नारायण नारायण नारायणं नारायण नारायण नारायणं नारायण नारायण नारायणं नारायण नारायण बाल्यस्पृशापि बभुषा ददुषापि पोधिके मोदन्त्यरेटखाङ्गदखाभासा शङ्करिवारि जगतां परिभाषितेन मेघासितेन परिलेसिते सुदेव चौरे चेदसोपे दूरस्थितं वपुरुदेशिजक्षणाप्याम् आनन्दपाठप्रफुलगोत्कमगद्गदार्थ तुष्टा भदृष्टिमकरं तरसं भवन्तं देव प्रसीद परपोरुषता भवल्लीयं निल्लो निं समनेत्रकलाविलास